मुद्गलपुराणम् खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायम् इलवन् पार्वतीगणेशचरितम् श्रीगणेशाय नमः शिव उवाच एकदा संस्थितं कैलासे गिरिजायुधं गणेशं भजमानं माम् दृष्ट्वा नन्दी समब्रवीद नन्द्युवाच शिवत्वं सर्वरूपश्च सर्वस्वेन प्रकीर्तितः सर्वेभ्यः फलदाता वै कर्मणां कर्मधारकः योगिभ्यो योगनाथस्त्वं योगसिद्धिप्रदायकः त्वत्तः परदरम नास्ति भजसे कम गजाननम् वेदे शिवसुधः प्रोक्तो गणेशो नात्र संशयः तं कथं भजसे नाथ स्वपुत्रं स्वामिनं यथा ईशस्ते नाम विख्यादं षत्वात् सदा शिवः तवेशो नैव वेदेषु त्वमेकस्सर्वभावनः किं मोहार्थं जनानां च पार्वत्या सह शङ्कर भजसे गणनाथं त्वं सैव गुप्तत्वकारणात् मा कुरुष्वृद्धा स्वामिन् गणेशभजनं कदा शैवानां मोहदं देवव्यभिचार पदप्रदं मुद्गल उवाच नन्दिनो वाक्यमाकर्ण्य तमुवाच सदाशिवः शिवः हर्षेणोत्फुल्लनेत्रश्च महापाशुपदं परं श्रीशिव उवाच न जानासि गणेशानम् नन्दिस्त्वं मत्परायणः तस्याकं गणरूपश्च पश्य वेदे विचक्षण गणाः समूहरूपाश्चानन्तास्तस्य महात्मनः ईशानां वै समूहेऽहं गणो गणपते स्मृतः एक एव गणेशान् सर्वे तस्य गणा स्मृताः ब्रह्माकाराश्च विश्वाकारा ब्रह्मेशस्य मानद विद्या नानात्मिका प्रोक्ता तस्य नानाविधा स्मृताः समुत्पन्ना विशेषेण विद्या ज्ञानप्रकाशकाः विद्याधीशोऽहमेकश्च कथितो वेदवादिभिः योगविद्यां मया श्रुत्य गणेश्यप्रकटीकृतः समाधिजं परं ब्रह्म तदेव पुत्र उच्यते अदत्समाधिजो यो मे गणेशपुत्रतां ययौ विद्यया ज्ञानसंयुक्ता अन्ये विष्णुमुखामराः न दे विद्याधिपाः प्रोक्ता मच्छुष्या नात्र संशयः तैश्च योगबलेनैव गणेशः प्रकटीकृतः समाधिजसुतस्तेषां बभूवे योगिनां तथा आदौ मया कृतं ब्रह्म साक्षात्कारी गुरुं विना विद्या बलेन तस्मातु मुख्योऽहं विश्वापो गुरुः अध शिवसुद्ध प्रोक्तो वेदेषु गणनायकः विष्णुवादयो न मुख्याश्च गणेशपितरस्मृताः अदोऽहं योगरूपं तं ब्रह्मेशं ब्रह्मवन्दिदम् भजामि स्वामिनं दासो नैव मोहार्थमादराद शिवस्य वचनं श्रुत्वा विस्मितो नन्दिकेश्वरः उवाच तं महादेवं सर्वज्ञं सर्ववन्तिदम् नन्दिकेश उवाच कुलदेवो गणेशानोऽस्माकं ते नात्र संशयः विभो तस्य वदज्ञानं मन्त्रं विधियुधं परं श्रीशिव उवाच चित्तं पञ्चविधं प्रोक्तदं सा बुद्धिः परमामदा नानाभ्रान्तिकरीसिद्धिर्भेदैश्वर्यमयी हृदि तयोर्बिम्बं गणेशस्य पतितं माययायुधं बिम्बभावं परित्यज्य गणेशो जायदे नरः सरसं चित्तमुत्सृज्य योगिवन्द्यो भविष्यसि एकाक्षरविधानेन भजतं योगसाधनैः एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परं सविधिं सोऽपि नत्वा तपोर्थी च ययौवनं निराहारेण तपःसाराधितो द्विरदाननः नन्दिना ध्यानयुक्तेन समाधिना विशेषदः गदे वर्षशदे पूर्णे योगीन्द्रः स बभूवः ययौ आगतं गणनाथं स दृष्ट्वा हर्षसमन्वितः उदायतं प्रणम्यादौ पूजयामासभकृदः पुनः प्रणम्य विघ्नेशं स्तोतुं समुपचक्रमे पार्वतीं वाममागे वै दधं वीक्ष्य विस्मिदः गणेशकृपया सद्यो ज्ञानं प्राप्तं महाद्भुतम् तेन सर्वं गणेशस्य चेष्टितं ज्ञातमादराद तदस्स नन्दिकेशानो विचारमकरोत् हृदि बाह्यरूपधरश्चायं महादेवो न संशयः गिरिजायाः पतिप्रोक्तः पञ्चवक्त्रादिचिह्निदः त्रिनेत्रो नरदेहाख्यो भिन्नभाव प्रदर्शकः आनन्दात्मकरूपा पार्वदी पार्वतीविष्णुरूपिणी शिवदेवमयी प्रोक्ता तस्यामात्मा शिवस्मृतः गजाकार स्वयं शम्भुरैक्यभोगपरायणः अर्धाङ्गप्रकृतिस्तत्त्वात् बभौ नारीनरशिवः नरकुञ्जरयोर्योगे गणेशाकारतां गदः शिवो ब्रह्ममय साक्षाद्गिरिजया समन्वितः योगमायामयि रम्य गणेशाङ्गव्यवस्थिता पार्वती पार्वतीनाथो गणेशः प्रबभौ स्वयं स एव वरदानार्थं समाययौ नसंशयः संशयः शिवचित्तस्थितश्चा यमियं शिवस्य मानसि ततः प्रणम्य हर्षेण प्रणनामगजाननं पुनः पुनः सरो माञ्चस्तं तुष्टावकृताञ्जलिः नन्दिकेश उवाच नमस्ते गणेशाय शान्तिप्रदाय सदा शान्तिरूपाय शान्तेर्धराय नराणां हृदिस्थाय नागाकृदीनां हृदिस्थाय योगाय योगेश्वराय हेरम्बाय नमस्तुभ्यं सिद्धिबुद्धिविहारिणे स्वानन्दबाय चौरेश वाहनाय नमो नमः पार्वतीपदयेतुभ्यं शिव चित्तगदाय वै लक्ष्मीपदे नमस्तुभ्यं विष्णु चित्तस्तमूर्तये संज्ञापदे नमस्तुभ्यं भानोर्हृदि स्थिदायजा आदिशक्तिपदे तुभ्यं शक्रिचित्तगमूर्तये सावित्रीपदये तुभ्यं ब्रह्मणो हृदि खेलक गायत्रीपदये तुभ्यमोङ्कार चित्तवासिने शचीपदे नमस्तुभ्यमिन्द्रचित्तकमूर्तये स्वाभापदे परेशायाग्निहृत्तिष्ठायते नमः नररूपाय वैतुभ्यं भिन्नसौख्यप्रचारिणे सर्वत्र भिन्नभावेषु नरायते नमो नमः निर्गुणाय नमस्तुभ्यं कुञ्चराकारमूर्तये सर्वत्राभेदसौख्येषु निर्गुणेषु स्थिताय च नरकुञ्जररूपाय योगाकाराय ते नमः योगानां पदये तुभ्यं पूर्णयोगस्वरूपिणे धन्योऽहं कृतकृत्योऽहं येन दृष्टो गजाननः किं स्तौमि ब्रह्म ब्रह्मेश्च नमस्ते वरदो भव एवं स्तुत्वा गणेशान् नानर्तप्रेमसंयुधः नन्दीशस्तं जगादासौ गणेशो भक्तवत्सलः श्रीगणेश उवाच वरान् वृणुमहाभाग नन्दीं स्ते मनसीप्सिदान् दास्यामि तपसा तुष्टस्तुतस्तोत्रेण मानद त्वया कृतमिदं स्तोत्रम् योगदं भविष्यदि मुक्तिदं कामिकायैव मुक्दिदम् मोक्षमिच्छदे सर्वसिद्धिकरम् भावि पठतां शृण्वतां सदा यं यमिच्छन्ति तं तं ते लभन्तेनेन निश्चितम् नन्दिकेश उवाच यदि त्वम् वरदो मेषि भक्तिम् देहि त्वदीयिकाम् गाणपत्यम् कुरु स्वामिन् मां भवतु ते नाथ यत्र तप्तम् तपो मया तथेदि तम् गणाधीशो जगादान्तरधीयदा ततः संस्थापयामास गणेशम् नन्दिकेशो महाभक्त्या पूजनं प्रचकारः पार्वतीगणपं नाम चक्रे तस्य महर्षयः सर्वसिद्धिकरं स्थानं बभूवे तन्महर्षयः ततो नन्दीश्वरो नत्वा समागत्य जगादः वृत्तान्तं सोपितं तं श्रुत्वा तं शंसन् हर्षितोऽभवद नन्दी विघ्नेश्वरं नित्यमभजद्भक्तिसंयुगः महायोगीन्द्रमुख्योऽसौ वभूव शिवसन्निभः विग्नेश इदमाम्बिकविघ्नेशचरितं कथितं मया धूम्रवर्णात्मकश्चायं गणेश सर्वसिद्धिदः यः पडेशृणुयाद्वाभि चरितं गणपस्य इदं लभेन्नरः सर्वं वाञ्छितं भुक्तिमुक्तिदम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते पार्वतीगणेशचरितं नामैकादशोऽध्यायः ॐ